सम्पाषम् च विनजुषात्मजामायुधनम् च बृहस्पतिप्रसोदो विजमान इहमादिशत् आजमसि सत्यमसि सत्यस्याध्यक्षमसि हविनशिलेश्वा नरम्येश्व सत्यौजाः सहसि सहमानमसि सहस्वाराधे सहस्वाराधे जनः सहस्वृतनाः सह स्वपृतन्यतः समस्रमेरुजमसि तं वाजिन्वाद्यस्याज्यमसि सत्यस्य सत्यमसि सत्यायुरसिमसि सत्येन क्वाभिकारियामि तस्य च भक्षेयबन्धानां त्वादानाय यन्त्राय धत्राय गन्धामि बन्धानां त्वय यन्त्राय जनाना ग्रागभत्राद गृह्णामि चलो स्वापञ्चबिलस्य चन्द्राय धत्राय गृह्णामि ब्रह्मणस्त्वा तेजसे चन्द्राय धत्राय गृह्णामि क्षत्रस्य त्वौजसे चन्द्राय धत्राय गृह्णामि भिषे त्वा चन्द्राय धत्राय गृह्णामि न्ता देवताभ्यो गृह्णामि रामाजद्वा गृह्णामि ध्रुवा सध्रुवाहकंस जातेषु भोजा सन्धेरश्चेत्तावसविदुग्रोश्च ग्रोहकंस जातेषु भोजा समुग्रश्चेत्तावसवित विभोरस्य पिभोरहन्तजादेषु भोजासमविभोश्चेत्तावसविद्धुनज्विद्वा ब्रह्मणा दैव विजायास्मै इन्धा नास्त्वा सुप्रजसस् सुवेज्योऽध्ये वेम परिहृतो भजम् अग्ने अस्य यज्ञस्य निश्याद्यद्वास्कन् धाराज्यस्योतविष्णो तेन हन्मि दधामि निर्वृत्या उपस्थे भोर्भवस्वरुत्सुष्मो अग्ने यजमानादे जनुसुष्मो अभिलासते अग्ने देवेभ्यमन् व्यध्यमन्द्र जिह्वा मत् तस्य देहो धर्मोर्ध्वनादिघर्मोषा सुवेर्यासिं भूतेना विषवागस्यैन्द्रे सपत्नक्षयणे वाचा मेन्द्रेण विषमसन्धमृतोणां ॄणां प्रेणामिधामाः प्रीता प्रेणं शरदमृतोणां प्रेणामिधामाः प्रीता प्रीणाद् हेमन्त शिशिरामृतूणां प्रेणामि कौमाः ृत्रः भोजासमिन्द्राग्निजोरहम् देव यज्जरे हेन्द्रियाह्नादो भोजासमिन्द्रस्याहम् देव यज्जरेन्द्रियामि भोजासं महेन्द्रस्याहम् देव यज्जरा जयमानम् महिमानङ्गमेजमग्ने स्पृष्ठकृतोऽहम् देव यज्जरा युष्मान् यज्ञेन प्रतिष्ठाङ्गमेजम् अग्निर्मा दुरिष्टात्पादु समिताघशगुम् साध्यो मेण्डिरा सुलोपवर्षवर्मष्टेजुष्टिं देशे रस्य लग्नस्य भोजादरे यज्ञो दिमगो दिवं देवस्त्यन यज्ञो देवानुप्ये कस्मास्येन्द्रन्द्रजं दधा त्वस्मान्द्राजपुत यज्ञाः सन्दास्मासु सोमासि हस्सानः प्रजा सुप्रतोघो नेष्टिरसिषस्म नुष्टा नुष्टिं जयगमेजं मनाज्योषधामाज्यं यच्छन्नै यज्ञगो स बृहस्पतिस्तनुमन्नो विश्वे देवाजिहमालयन्ता ब्रह्मबिम्बस्पदतो मेमाख्याय कुर्वतो मेमोपलसत्पजापदे भागोः स्योर्जस्वान् वयस्मान् प्राणापालौ मे बाहि समानभ्यानौ मे बाह्युदान्यान क्षितोस्तक्षे वा मामे श्रेष्ठा अमुत्रामुष्मिन् भोगे बलिहषाहम् देवगज्जलाः भोला सन्दरासगुंसस्याहम् देवगज पुषुमान्धो जासमग्ने श्रेष्ठकृतोहं देव जज्जुष्मान् प्रतिष्ठाङ्गमेन मग्नेरहमुज्झितेमनो जयशुं सोमस्याहमुज्झितिमनो ज्यै शमग्नेरहमुज्झितिमनो जैषमग्ने सोमजोरहमुज्झितिमनो जै शमिन्द्राग्निजोरहमुज्झितिमनो जै शमिन्द्रस्याहमुज्जितिमनो जै षं महेन्द्रस्याहमुज्झितिमनो जै समुज्यति मनोज्यम्राजस्य माप्रसवेणोह ग्रामेणो न गृहे अथा समभागुम् इन्द्रो मे निग्राभेण स रागुम् अगः ग्राभम् ये मा अग्मन्ना सुशोदोहकामा इन्द्रमन्तो वनामहे सुक्षेमहि त्वजामिषम् रोहितेन त्वाग्निर्देवताङ्गमयतु हरिभ्यान्त्वेन्द्रो देवताङ्गमयभेदशेन त्वासोर्यो देवताङ्गमय कस्मा सुद्रविणै यच्च ada विष्णोः श्रोरहं देव यज्जया यज्ञेन प्रधिष्ठाङ्गमे जगुं सोमस्याहं देव यज्जया सुरेता रेतोषेष्टुरहं देव यज्जयापसोनागुं लोपं कुषेयं देवानां पत्नीरग्निर्ग्रहपदस्तमि सनं तजोरहं देव यज्जयामि जस्वागकम् सहस्रणम् वेदो दुदातु वाचिनम् आप्यागदान्ध्रुवासितेन यज्ञ यज्ञम् प्रतिदेवदद्धः सोरुदोधो नित्यार्वस्थमुलार्भे अस्मिन् प्रजापतेर्विभान्नामलोकस्तस्मस्मादधामि सह यजमाने ने भोजास् सर्वमसि सर्वं मे भोजास्पोर्णमसु पूर्णं पोर्नम मे भोजा अक्ष नमसि मामे श्रेष्ठा प्रास्यापितो मार्जगन्तां दक्षिणायान् दृशि मासा पितरो मार्जगन्तां प्रदेच्छ्याहन् दृशिगृहाः पशवो मार्जगन्दाम् ोषधयो वनस्पतयो मार्जयन्तायान् ऋषिलज्ञमार्जयन्तां विष्णाक्रमाः स्वकारत्रेण सन्दसा ऋषिवे मन विक्रमेण भक्तस्य वैष्णवाक्रमाःस्य भिषष्टिहासां तमनु विक्रमेण भक्तस्य जन्द वैष्णवाक्रमाः स्वनादे यतो हन्ता जागते न छन्दसादिपमनुविक्रमे निर्भक्तः स्वयम् घस्मः क्रमाच शत्रो यतो हन्ता नृभे न छन्दसा दिश नु विक्रमे अगन्व सुभस्वगन्व सन्दृशस्ते माच्छत्ते तपस्तस्मै देवाक्षसुभोरश्रेष्ठरश्मै नमादुर्धा अस्यायुर्मे हि वर्चोघा असि वर्चो, वर्चो मयुध हेदमः ममुम् धातु्यमाभ्यो दिग्योऽस्ते दिवस्मादम् दर्घ्यारस्ते ऋषिव्यास्मादम् नाद्यान्नर्भजामि निर्भक्तः सगन्धृष्मः सञ्जोदिषा भोपमेन्द्रे भावृतभन्वा वर्ते समहम् प्रदजासम्मया प्रजा समह गो राजस्पोष नाजस्पोषः समिद्धो अग्ने मे दे देहितमे अग्ने देज्ञासम्बसुपानयज्ञावसेजाम्भोदासमग्नः योगुंशिपवसहा सुबोर्जमिषञ्चनः स्वुत्सुनाः आज्ञै भवत् स्वस्तव अस्मैवच्चः सुवेर्यम् तथा कोषकम् रजम् अग्ने गृहपदे सुगृहपदिरहं वया गृहपदिना भोजासगम् सुगृहपतिर्मया त्वम् गृहपदिना भोजातगम् हिमास्तामासु शमाशा शेतम् तवे ज्योतिष्मदीम् त्वामासु शमाशा शयपुष्मे ज्योतिष्मदे कस्त्वाजमग्नि सत्त्वामं चत्मग्ने स देवानामधिपदर्पभो वसो अस्माकम् अधिपतेन्द्ररोज्ञस्यामपदरोना भोमागुम् अग्नेमिमागुम् अस्मि यज्ञोन्द्रवत्सखासदमिद प्रमृष्यः विरामागुम् एषो असुरप्रजावान् देर्घोरजिह्नसुबुद्धः स्वभावा यथा वै समृतसोमादेवम्बा जयते समृतयज्ञागन्दशपोर्णमासौ कस्य वा ह देवायज्ञमागच्छन्ति यस्य मानबहूनां यजमानायो वै देवता पूर्वः परिगृह्णादिशेनाश्व भूमे गजतजेतन् वै देवानाभायत नै यदाहवनीयोऽन्तराग्ने पशूनाङ्गार्यहपत्यो मनुष्याणा जनः पितृणामग्निं गृह्णाति स्वदेवायतने देवता परिगृह्णाति ताश्व व्रते न मे मे ध्योग्व्रतपदर्म्रां फणो व्रत व्रतमपै शम्ब्रोजादग्नेः व्रतपदे व्रतं चलिष्यामि नमासे कृतमुपैति वत्सैरमावास्यायामे तध्येतजो राजतनमुपस्थैर्जः पूर्वश्चाग्निरपरश्चेत्याहुर्मनुष्यायन्वा उपस्तीर्णमिच्छन्ति किमुदेवावसानमुपास्मिन् स्वो यक्ष्यमाणे देवतापसन्ति देवम् दे विद्वानग्निमुपस्तृणादियजमाने दे दे नग्राम्याश्च वशवो बलुध्यारण्याश्च त्याहर्यग्राम्यानुभवसति तेन ग्राम्यानवरुन्धे यदारण्यस्यास्नातितेनारण्यानियजनाश्वानुभवसे त्रिदे भक्त्यस्यादारण्यस्यास्नातिन्द्रियं वा अरण्यमिन्द्रियमेवात्मन्धत्ते यजनाश्वानुभवसे शोधकस्याद्यदस्नीया रुद्रोऽस्य पशोदभिमन्ये तावो स्नाति तन्नेव क्षोथुगो भवति नास्य रुद्रः पशोनभिमन्यते वज्रो वै रज्ञः यो वै श्रद्धा वा श्रद्धामेवारभ्ययज्ञेन गजत उभये स देव मनुष्यादिष्टाद श्रद्दधते तदाहुरधिवा नेता भद्रन्ने दं दिवाचं मनोवा वै तातिने दं देति मनसा वेदयज्ञायुधानि सम्भरति यज्ञो वै यज्ञायुधानि यज्ञ यत्सर्वाणि मानु द्वे सम्भरति राज्यानुवाक्यो देवरूपं करोत्यमेव यो वैदश यज्ञायुधानि वेदकल्पते शश्च कपालानि चोरुखलञ्च मुसलञ्च त्रिषच्चोपलाचेता निवेदश यज्ञायुधा निजदेवं वेदमुखतोस्य यज्ञः कल्पते यो वै देवेभ्यः प्रतिप्रोत्स यज्ञेन यजते जुषन्तेः स देवा हव्यगुं हविर्निरम्यमाणमभिमन्दनेताग्निगुम्भवदानमिहतगुम्भवगति देवेभ्य देव प्रतिप्रोत्स यज्ञेन गजते जुषन्तेः स देवाहव्य जग्रहो गृहे त्वैव यज्ञेन गजते तद् जित्वा यच्छति यज्ञस्य सत्या मनसा वै प्रजापतिर्जज्ञमतनुतमनसैव तद्यज्ञम् तनुते रक्षसामनम् भवचाराय वै यज्ञयोगते जुनग््यजुङ्ते युञ्जानेषु कस्त्वाजुनग्भिसत्त्वाजुनक््युग्याहप्रजापतिर्वैकः प्रजापतिर्नैवै न जुनग्द्विजुङ्क्ते युञ्जानेषु जापज्ञानसजताग्निहोत्रञ्जाग्निष्ठोमं च पौर्णमासे चोक्षं चामाभास्याञ्चातिदात्रं च आप्नोधिगदेवं विद्वान् पौर्णमासीं गजतेन मदुक्षे नोपाप्नोदिता वधुपा आप्नोतिगदेवं विद्वानमाभास्याय गजतेना पदधिरात्रेणोपाप्नोदिता वधुपा आप्नोति परमेष्ठिनो वाजेश यज्ञोऽग्रहासेर्तेन स परमाङ्गाष्ठामगच्छत्तेन प्रजापतिं निरवासाय धत्तेन प्रजापतिः तेनेन्द्रन्निलवासाय दत्तेनेन्द्रः परमाङ्काष्ठामगच्छत्तेनाग्नेशोमौ निरवासाय दत्तेनाग्नेशोमो परमाङ्काष्ठामगच्छता यं विद्वान् दर्शपोर्णवासौ परमामेव काष्ठां गच्छति यो वै प्रजातेन यज्ञेन यजते दर्शपोर्णपासरोस्तानि सम्पाद्यानेत्यां चाधिश्रयत्यपचहन्ति घृषतौ च समाहन्त्यधि चपत कपालानि चोपधाति पुरोडा चाधिश्रगत्याज्यं च स्तम्भयजश्च हरत्यभि च गृह्णाति वेदिं च परिगृह्णाति पत्नीह्यतिप्रोक्षणेश्चासादिगत्याज्यं चैतानि वै द्वादश द्वन्द्वानि दर्शपोर्ण मासजोस्ता निजदेवकम् सम्पाद्य गजते प्रजाते नैव गजते प्रजजा कुशुकर्मिसनैर्जायते ध्रुवो स ध्रुवोहगं स जातेष भोजा समित्याः ध्रुवानेवैनाङ्कुरुतहं स जातेष भोजा समित्याः प्रतिवादिन एवैनाङ्कुरुते विभोरस्य विभोरहगं स जातेष भोजा समित्या हजरेवैनं प्रत्युत्पितेतमुपास्यते दुलध्मित्वा ब्रह्मणादैव्येनेत्याहैषवा अग्नेर्योगस्ते देवैनैमक्तिलज्ञस्य वै समृद्ध देवास्वर्गं लोकमाजन यज्ञस्य यज्ञस्य ऋष्यादित्याह यज्ञस्यैव समर्थेन योकमेति यज्ञस्य मेताभिजाहदेसादने यज्ञमुखं वा अग्निहोत्रं ब्रह्मैताहृतयोखज्रह्म कुरुते ेवोपादयेत् ब्रह्मणैव भजतः संवत्सरं परिगण्ढारिदर्शवोन्नमासौ जातुम् यज्ञमुखं वैदर्शमोन्नमासौ जातुम् आस्यायब्रह्मैदाहृतजो यज्ञमुखदेव ब्रह्म गुरुजयसंवत्सरे परिजागतरेताभिरेवासादये ब्रह्मणैव भजतः संवत्सरं यद्वै यज्ञस्त साम्ना क्रियते राष्ट्रं यज्ञस्याशीर्गच्छति यदि साभिसं यज्ञस्याशीर्गच्छत् कथं ब्राह्मणो नाशीर्केण यज्ञेन गजते सामिथे नीर वक्ष्यन्ताफुरस्ता दधा ब्रह्मैमप्रतिपदं कुरुते तथा ब्राह्मणस्याशीर्केन यज्ञेन गजते जङ्गामजमानं भ्रातृजमस्य यज्ञस्याशीर्गच्छत् ैतां जाहृदयः पुराणभाग्यायां दध्याद्भ्याद्रव्यदेवद्या वै पुरोनुभाक्याभ्याद्रुव्यस्य यज्ञस्याशीर्गच्छति यान् कामलमानान् समावत्यैनान् यज्ञस्याशीर्गच्छेति जितेषामैतां ैनान् समामति यज्ञस्याशीर्गच्छति यथा वै मजन्नं वरिषद्य स्थलयोदकं परिगह्णं चाशिषा यज्ञमानः परिगण्ढादि प्राजां मनसा मा भूतेन विषयेत्याह मनो वै प्राजापत्यं प्राजापत्यो यज्ञो मनजयज्ञमात्मं धत्तेवागस्येन्द्रियमध्यक्षयणे जयत्याहैन्द्रिय वैवाग् वाचवैवेन्द्रियमात्मन्धत्ते यो वै सप्तदशं प्रजापतिर्यज्ञवन्वा दत्तं वेदप्रति यज्ञेन तिष्ठ जन यज्ञाद्भगं सताश्राव चतुरक्षरमस्तुश्रौषयति चतुरक्षदयज्यक्षरय्ये यजाम हरिति पञ्चाक्षरं द्व्यक्षरो वै तेनारिष्टेन यज्ञेन सङ्गृस्थाङ्गच्छत्याश्वामयास्तु श्रोषभ्यजामहेम षट्कानवेदं वै यज्ञस्य प्रायणमेषा प्रतिष्ठैतदुदयनैन्यं वेदप्रतिष्ठतेनारिष्टेन यज्ञेन सगृस्थाङ्गच्छतिजो वै सोनृतादिदोऽहं वेद दुहजे वैनाज्ञो वै सोनृताश्वाजेत्यै वै नाम ृपासृता दीतोमासदते शान्तिमपश्यन्नाश्रामजयति पुलोपातमजन व्यायं दज एवं वेदप्रास्मै दशव्यायं वे प्रजापदं त्व वेद प्रजापदिस्त्वं वेदजं प्रजापतिर्वेदस पुण्याभवत्येष वैच्छन्दस्य प्रजापतिराश्रायास्तुश्रौषज्य जय जजामहे कालो जं वेद पुण्याभव देवसन्तोरां प्रेणामेज्ञा हर्तवो वे प्रजातो नैव प्रेणा कल्पन्दे ल्पं दे स्मारित भोजदेवं वेदाग्नेशोमजोरहं देवजरा चक्षुष्मान् भोजा समित्याःग्नेशोमाभ्यां मयि यज्ञश्चक्षुष्मान् तां भ्यामेव चक्षुरात्मन्धत्तेग्नेरहं देवजरान्नादो भोजा समित्याः वै देवानामन्नादस्ते नैवान्नाद्यमात्मन्धत्य दद्धिरश्चमित्याहेतया वेदभ्या देव असुरा नदभ्रमन्त देवभाभ्रेषोमजोरहं देव यज्जया वित्रहा भोजा समित्याहाग्नेशो माभ्यां वायुन्द्रो वित्रमहन्ताभ्यामेव यज्ञस्तृणद इन्द्राग्नजोरहं देव यज्जतेन्द्रियाव्यन्नादो भोजा समिज्ञाहेन्द्रियाव्यवान्नादो भवतेन्द्रस्याहं देव यज्जयेन्द्रिया वेभोजा त्याहेन्द्रयाति महेन्द्रस्याहम् देव यज्रया देवानम् यज्ञे स्विष्टकृतोऽहम् देव यज्रयाज्ञेन प्रतिष्ठाङ्गमे जमित्यावात्मम् धत्ते प्रतियज्ञेन तिष्ठति इन्द्रम् वो विश्वदस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः इन्द्रन्नरो मे मथिताहवन्ते यत्पायाय न च ते धुयस्ताः शूरो निषादाशवसश्च काना गोमती भजात्पन्नः इन्द्रियाणि शतक्रतो जाते जनेषु पञ्चसु इन्द्रतानि तावृणे अनुदेजाय महैन्द्रियाय सत्ता देवि स्वमनभिग्राहत्ये अनुक्षत्रमनसहा च ध्रेन्द्रदेवेऽभिननुते आलस्मिन् सब्दवासवास्तिष्ठन् दिस्वारुहोल बिभिर्हलेऽर्धस्वत्थमलिन्द्रस्य घर्मो अतिथिः आवासु पक्वमैरल आसोगोरोहयो दिवे धर्मन्नसामन्तपदासु भृक्तिभिर्जुष्टम् गर्वणशेगिरः इन्द्रमिद्याथिनो बृहदिन्द्रमर्केभिरर्किणः इन्द्रम् बाणीरनौषदा गायम् यद्भागा शत्रिणोऽर्चम् तर्कमर्किणः ब्रह्मा न श्वाशतक्रदवद्भगुंशिवदे अगुम्होमुचे प्रभरे माम् षष्ठदा उन्नै समदिङ्गनाः इदप्रतिह विजङ्गृभागसत्याः सन्तृषमानस्य कामाःस्तवै पुरापाहः अहसौ यत्र पेपरो नावे भजान्तमुभये हवन्दे प्रसंराजम् रथममध्वराणामगम् होमुचम् यज्ञयाना अपान्नवारमस्मिन् हयन्तमस्मिन्नरयन् धत्तमोजः विनयन्द्र मृधो जय ने चायच्छतम् यतः अभिदासते इन्द्रक्षत्रमभि ममोजो जायथा मित्रजम् त पुरुम् देवेभ्यो रणोलोकम् भगवान् भेमस्तु सरोगरिष्ठाः परापताजगामावरस्याः सुंशंसाजवमिन्द्रदिग्मम् विशत्रोन्ताो न विमृधोऽत्रस्य हनोजन्यस्याभिदासदः दादा रमिन्द्रमपिता दा रवीन्द्रम्भवे दा हवे सुहवपुंसो रविन्द्रम् शक्रम् बहो रविन्द्रज्ञस्वस्तिरा इन्द्रम् महरन्त अर्कैरवर्धयम् नः देहम् तवापु कृष्णे यत्त्वे वृषणो अर्कवर्जानिन्द्रग्रावाणो निरुधिस्रयोधाः अनश्वासो ये भवजोर्था इन्द्रेषुधाभ्यवर्तन्तोरे